सर्वेभ्यः अस्माकं योगनिष्ठजीर्णमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र अस्माकं करपत्रं प्रति प्राक् किञ्चित् अत्र अद्य वक्तुम् अस्माभिः स्वीकरणीया मानसिकशान्तिं प्राप्तुं तस्य अर्थः कः इत्युक्ते लोके वयं किम् इच्छामः लोके लौकिकवस्तुभ्यः सुखं दुःखं नो इति तु न इच्छामः अन्ततो गत्वा वयं किम् इच्छामः इति चेत् मानसिकशान्तिः मानसिकशान्तिः एव वयं इच्छामः तर्हि अस्मिन् संसारे जनाः द्विविधाः सन्ति एकः एकस्मिन् एकस्मिन् वर्गे के जनाः सन्ति इति चेत् ये अन्यायं कर्तुम् इच्छन्ति अपि च अन्यस्मिन् विभागे सन्ति इति चेत् ये अन्यायं कर्तुं न इच्छन्ति प्रथमवर्गे ये जनाः सन्ति ये अन्यायं कर्तुम् इच्छन्ति यदि ते अन्यायं कुर्वन्ति तदानीं ते अन्यायस्य सहनमपि तैः करणीयं भवति ये अन्यायं न कुर्वन्ति तैः अन्यायस्य सहनं न करणीयं भवति तर्हि अत्र अन्ततो गत्वा वयं किम् इच्छामः इति चेत् मानसिकसन्तुलनम् एव वयम् इच्छामः मेण्टल् इक्विलिबिरियम् इति एव वयमिच्छामः मानसिकशान्तिः इति तर्हि मानसिकशान्तिः कथं वयं शान्तिं कथं वयं प्राप्तुं शक्नुमः इत्युक्ते लोके यदा वयं व्यवहारं कुर्मः जनैः सह यदा व्यवहारं कुर्मः तदानीं तत्र किमपि जायते येन अस्माकं मनः उपरि गच्छति अथवा अदोभागे गच्छति यदा सम्भाषणं कुर्मः अन्यैः सह तदानीं तादृशसन्दर्भः आयाति येन अस्माकं मनः यदि उपरि गच्छति अथवा अधोभागे गच्छति प्रायेण तु अधोभागे एव गच्छति अस्माकं लौकिकसम्भाषणेन अथवा व्यवहारेण तर्हि लौक् लोके लो, यदा व्यवहारं कुर्मः तदानीमपि अस्माकं मनः कथं सन्तुलितं शंतुलित, सन्तुलितं भवितुमर्हति इति प्रश्नः अथवा कथं स्थापयितुं शक्नुमः अथवा तत्र मानसिकशान्तिं कथं प्राप्तुं शक्नुमः इति चेत् अत्र वस्तुतः गाढरहस्यमस्ति कथं स्थापयितुं शक्नुमः इति चेत् तत्र केचन बिन्दवः सन्ति प्रथमतया यत्र यत्र अस्माकं मनसि तत्र अनुचितभावना आयाति इत्युक्ते अनुचितभावना आयाति यथा अन्यं प्रति द्वेषः ईर्ष अथवा किमपि तत्र मनः सम्यक् नास्ति अन्यं दृष्ट्वा इति तादृशभावना यदा अस्माकं मनसि आयाति तदानीम् अस्माभिः विपरीतभावना स्वीकरणीया हेर् टु टेक् आपोसिट् स्टान्स् कथम् इति एकैकम् एक एक उदाहरणं स्वीकृत्य पश्यामः तर्हि अस्माकं कश्चन स्नेहितः अस्ति अथवा मित्रमस्ति सः बहु सम्यक् करोति स्वस्मिन् क्षेत्रे बहु सम्यक् करोति सः बहु सन्तुष्टः अस्ति यदा तथा तदा तथा पश्यामः मित्रः अस्माकं मित्रं अस्माकं स्नेहितः सन्तुष्टः अस्ति इति वयं पश्यामः पश्या तदानीम् अस्माकं मनसि ईर्ष्या आगच्छति सामान्यतया एवमेव एव भवति यद्यपि सः सहतु तु स्नेहितः अस्ति तथापि अस्माकं मनसि ईर्ष्य आगच्छति तदानीम् अस्माकं मनः अधोभागे गच्छति एवं रीत्या प्रत्येकं सम्भाषणेन अथवा प्रत्येकं सम्पर्केन अस्माकं मनः उपरि गच्छति अथवा अधोभागे गच्छति तदानीम् अस्माभिः किं करणीयं यदा एतादृश ईर्ष्य इति भावना अस्माकं मनसि आयति तदानीम् अस्माभिः किं करणीयम् इति चेत् तदानीम् अस्माभिः अस्माकं मनसि किं वक्तव्यम् इति चेत् ओ सः तु बहु सम्यक् कृतवान् आसीत् इति कृत्वा एतत् सर्वं जातं बहु सम्यक् अस्ति बहु सम्यक् अस्ति बहु सम्यक् अस्ति इति अस्माकं मनसि वयं पुनः पुनः वदामः चेत् तदानीम् अस्माकं मानसिकशान्तिः सन्तुलिता भवति अस्माकं मनसि ईर्ष्या न भवति अपि च एवम् एवमपि भवति केचन जनाः सन्ति ये अस्माकं कृते तेषां व्यवहारः सम्यक् न भवति सर्वदा ते अस्माकं कृते दुःखमेव ते ददति तर्हि तदानीं किं भवति इति चेत् यदि तेषां तत्र कष्टं तेषां तेषां तत्र दुःखं भवति यदा ते दुःखिताः भवन्ति तदानीं तदानीम् अस्माकं तु सन्तोषः जायते ओ बहु सम्यक् अस्ति ओ सः तु दुःखितः अस्ति इति कृत्वा बहु सम्यक् अस्ति एवमेव एवमेव स्यात् सः तु दुष्टः इति कृत्वा एवमेव स्यात् इति वयं चिन्तयामः एवं वयं चिन्तयामः चेत् तदानीम् अस्माकं मनः अधोभागे गच्छति तत्तु सम्यक् नास्ति तर्हि तदानीं तस्मिन् सन्दर्भे अस्माभिः किं करणीयम् अस्माकं मानसिकशान्तिः कथं सन्तुलिता भवेत् कथं सन्तुलितम् अस्माकं मानसिकशान्तिः सन्तुलिता भवति इति चेत् तदानीं तत्र किं करणीयम् इति चेत् तदानीम् अस्माभिः चिन्तनीयम् ओ सः सः तु कष्टे अस्ति सः तु कष्टे अस्ति इति कृत्वा तस्य दुःखं सः तु कष्टे अस्ति इति सर्वदा अस्माकं मनसि चिन्तनीयम् ओ सः तु बहु कष्टे अस्ति एवं न भवेत् सः बहु कष्टे अस्ति एवं न भवेत् इति एतादृशं वयं पुनः पुनः अस्माकं मनसि चिन्तयामः चेत् तदानीम् अस्माकं मानसिकशान्तिः सम्यक् भवति यदि वि तस्य विपरीतभावना यदि वयं स्वीकुर्मः यदि ओ बहु सम्यक् आसीत् सः दुःखितः अस्ति बहु सम्यक् अस्ति तदानीं तत्र अस्माकं मनः आदौ भागे गच्छति तत्तु सम्यक् तादृशव्यवहारः सम्यक् नास्ति तर्हि विपरीतभावना अस्माभिः स्वीकरणीया एवमेव कदाचित् किं भवति इति चेत् केचन जनाः सत्कर्माणि कुर्वन्ति सत्कर्माणि कुर्वन्ति दानं कुर्वन्ति अथवा अन्यस्य सहायं कुर्वन्ति इति बहु किमपि कुर्वन्ति ते ते जनाः सन्तुष्टाः भवन्ति एतत् सर्वं कृत्वा ते सन्तुष्टाः भवन्ति यदि वयं तान् वयं पश्यामः तदानीम् अस्माकं मनसि पुनः ईष्ट्या आगच्छति अथवा तत्र अस्माकं दुःखं भवति ओ सः बहु दानं करोति बहु सन्तुष्टः अस्ति इति दृष्ट्वा अस्माकं दुःखं भवति तदानीं तत्र किं किं तदानीं वयं किं चिन्तयामः ओ सः किं किमर्थं सन्तुष्टः अस्ति अहं तु दुःखिता दुःखिता अस्मि किमर्थं सः सन्तुष्टः अस्ति इति तथा अचिन्त्वा अचिन् अधिंत, अचिन्तयित्वा अस्माभिः किं करणीयम् इति चेत् अस्माभिः चिन्तनीयम् ओ बहु सः सम्यक् कार्यं करोति सः बहु उचितं कार्यं करोति इति तस्य प्रोत्साहनम् अस्माभिः करणीयं सः आनन्दितः अस्ति एतत् सर्वं कृत्वा सः सन्तुष्टः अस्ति यत् बहु एतत्तु बहु सम्यक् अस्ति इति तादृशविपरीतभावनां वयं स्वीकुर्मः चेत् तदानीम् अस्माकं मनः सम्यक् भवति अस्माकं मनसि या इच्छा भवति तदानीं तत्तु सम्यक् भवति इत्युक्ते अस्माकं जीवनम् एकः एकः सङ्घर्षः अस्ति सङ्घर्षः अस्ति इत्युक्ते इत, तत्र अस्माभिः सर्वदा सङ्घर्षः करणीयः प्रत्येकस्मिन् क्षणे अस्माकं व्यवहारः अन्येन सह यदा सः भवति तदानीम् अस्माभिः सङ्घर्षः करणीयः एतादृशविपरीतभावना अस्माभिः स्वीकरणीया अपि च तत्र किं भवति इति चेत् कदाचित् अस्माकं मनसि घृणा भवति अन्यं प्रति अन्यं प्रति घृणा भवति केनचित् कारणेन भवतु नाम तस्य कृते सम्यक् नासीत् अथवा तेन कटुवचनम् उक्तम् अथवा अन्यत् भवतु नाम अस्माकं मनसि अन्यं प्रति कदाचित् घृणा इति भावना भवति तदानीं किं भवति अस्माकं मनः अधोभागे पतति घृणा भावना यदा भवति तदानीम् अस्माकं मनः अधोभागे प पतति तर्हि पापं भवति अस्माकं तर्हि तत्र तादृशसन्दर्भे अस्माभिः किं करणीयम् इति चेत् तत्र विपरीतभावना स्नेहभावना अस्माभिः जागरणीया अन्यं प्रति स्नेहभावना जागरणीया तर्हि अस्माकं मनसि वक्तव्यं इत्युक्ते सः पुरुषः सम्यक् अस्ति तम् अहं तस्य तस्य कृते मम प्रीतिः वर्तते इति एवं रीत्या अस्माकं मनसि विपरीतभावनां स्वीकुर्मः चेत् तदानीम् अस्माकं मानसिकशान्तिः सम्यक् भवति अपि च अन्य अन्यः विषयः अस्ति किम् अस्ति चेत् कदाचित् सर्वेषां मन् मनुष्याणां तत्र क्रोधः इति विषयः सर्वेषां स्वाभाविकः अस्ति कदाचित् अस्माकं क्रोधः भवति अन्यस्य व्यवहारं दृष्ट्वा अस्माकं मनसि क्रोधः इति भावना जागरिता भवति तदानीं किं किं किं भवति यदा वयं क्रोधिताः भवामः तदानीं किं भवति इति चेत् अस्माकं बुद्धिः सम्यक् कार्यं न करोति तदानीम् अस्माकं बुद्धिः सम्यक् कार्यं न करोति वयं किमपि कर्तुं न शक्नुमः अस्माकं तस्मिन् सन्दर्भे यदा वयं क्रोदिताः भवामः तस्मिन् सन्दर्भे वयं सम्यक् निर्णयं कर्तुं न शक्नुमः तर्हि अत्र इति चेत् अस्माभिः यः बुद्धिमान् अस्ति सः कदापि क्रोधितः न भवति कदापि क्रोधितः न भवति क्रोधः इति तु सम्यक् नास्ति क्रोधः त्याज्यः अस्ति क्रोधः न भवेत् क्रोधः असाधुः अस्ति तर्हि यदि कश्चन पुरुषः अस्ति अस्माकं सम्भाषणं भवति तेन सह स कदाचित् सः क्रुदितः क्रोधितः भवति केनचित् कारणेन सः क्रोधितः भवति सः बहु कुपितः अस्ति तत्र वयं सः कुपितः अस्ति कुपितरूपेण सः सम्भाषणं करोति तदानीं यदि वयमपि क्रोधितः भवामः तदानीं तु अस्माकं मानसिकशान्तिः गच्छति खलु यदा क्रोधः आयाति तदानीं तु मानसिकशान्तिः न भवति तर्हि सः अपि क्रोद् क्रोधितः वयमपि क्रोधिताः तर्हि तत्र किं अधतो गत्वा किं भवति य यः विषयः अधतो गत्वा भवति सः तु समीचीनं नास्ति तर्हि यदि तत्र अन्यं प्रति यदा अस्माकं सम्भाषणं भवति सः पुरुषः यदि क्रोधितः अस्ति तदानीं यः बुद्धिमान् पुरुषः अस्ति सः तदानीं क्रोधभावनां त्यजति क्रोधभावनां त्यजति सः कदापि कुपितः न भवति तदानीं किं भवति इति चेत् अस्माकं तु बुद्धिकौशल्यं भवति वयं सम्यक्तया निर्णयं कर्तुं शक्नुमः अन्यः यः पुरुषः अस्ति सः कुपितः अस्ति तस्य तु निर्णयशक्तिः गता यतोहि क्रोधेन अतः क्रोधः कदापि न स्यात् अस्माकं मनसि क्रोधः त्याज्यः अनन्तरम् अस्ति तत्र कश्चन पुरुषः अस्ति यस्य पार्श्वे बहु धनम् अस्ति परन्तु सः धनम् अन्यं प्रति धनं दातुं न इच्छति स्वस्य कृते एव सः रक्षितुम् इच्छति धनं तर्हि तत् तादृशपुरुषं पुरुषं प्रति अस्माकं व्यवहारः कथं भवेत् इति चेत् तस्य कृते अस्माभिः बहु किमपि दातव्यं यतोहि सः किमपि न ददाति अस्माभिः बहु किमपि तत् तस्य कृते दातव्यम् एवं वयं कुर्मः चेत् अस्माकं मनसि शान्तिः भवति mm -hmm. यः किमपि न अन्यं कृ अन्यं प्रति किमपि न ददाति तं प्रति अपि यदि अहं तथा यः कञ्जूस् इति वयं वदामः खलु हिन्दीभाषायां कञ्जूस् तर्हि तादृशपुरुषः यः अस्ति तं प्रति अस्माभिः अधिकं धनं दातव्यम् अधिकं किमपि दातव्यं तदानीं किं भवति अस्माकं मानसिकशान्तिः सम्यक् भवति नो चेत् वयं चिन्तयामः एवमस्ति बहु धनमस्ति परन्तु किमपि न ददाति इति अस्माकं क्रोधः आयाति तथा न भवेत् परन्तु तं प्रति अपि अस्माभिः अधिकं दातव्यं तर्हि अस्मिन् जगति केचन जनाः सन्ति ये मिथ्यावादिनः सन्ति तर्हि मिथ्यावादिनं मिथ्यावादिनस्य मिथ्यावादिनं मिथ्यावादि यः अस्ति तस् तं प्रति अस्माकं व्यवहारः कथं भवति इति चेत् अस्माभिः सत्यवादी अस्माभिः सत्यवादी भवेत तदानीमेव तैः सह सङ्घर्षः सम्यक् भवति अस्माकं सङ्घर्षे कौशलम् आयाति सत्यवादी इत्युक्ते अन्धकारे यदा वयं गच्छामः तदानीम् अस्माकं हस्ते दीपः स्यात् दीपः अन्धकारस्य अन्धकारस्य विरोधः अन्धकारेण न भवितुम् अर्हति अन्धकारस्य विरोधः दीपेन एव भवितुम् अर्हति एवं कश्चन पुरुषः क्रोधितः अस्ति चेत् तस्य विरोधः किं तस्य विरोधः किं सम्यक् भवति इति चेत् अक्रोधः एव सम्यक् भवति यदा वयं क्रोधिताः न भवामः वयं शान्ताः भवामः तदानीम् अस्माकं मानसिकसन्तुलनं सम्यक् भवति अस्माकं जयः अपि तस्मिन् सन्दर्भे सम्यक् भवति अपि च अन्य अन्यः अपि विषयः अस्ति यत् अस्मिन् जगति बहवः जनाः सन्ति यैः सह अस्माकं सम्पर्कः भवति केचन जनाः अस्माकं कृते दुःखं ददति केचन सुखं ददति तर्हि ये जनाः अस्माकं कृते दुःखं ददति तैः सह अस्माकं प्रीतिः भवति अस्माकं प्रीतिः भवति अस्माकं मनसि दुःखं भवति तैः सह यदा सम्भाषणं भवति तदानीं दुःखं भवति अपि च केचन जनाः सन्ति यैः सह अस्माकं सम्भाषणं भवति अथवा व्यवहारः भवति तदानीम् अस्माकं सुखं भवति तर्हि तदानीमपि पुनः अस्माकं मनः उपरि गच्छति अधोभागे गच्छति कदाचित् उपरि कदाचित् अधोभागे तत्तु सम्यक् नास्ति मानसिक मानसिकसन्तुलनम् आवश्यकं तर्हि अस्माभिः य यः पुरुषः अस्माकं कृते दुःखं ददाति तस्य कृते अपि अस्माकं व्यवहारः समानः भवेत् यः दुःखं सुखं ददाति तस्य कृते अपि व्यवहारः समानः समानः भवेत् यः दुःखं ददाति तस्य कृते द्वेषः न न भवेत् द्वेषः न भवेत् दुःखेषु सुखेषु अपि अस्माकं मनः समानरीत्या तुला तुला अस्माकं मनः तुलाभूतः तुलाभूतं भवेत् दुःखेषु सुखेषु तर्हि दुःख यदा दुःखं भवति तदानीम् उद्वेगः न भवेत् यदा सुखं भवति तदानीम् आकाङ्क्षा न भवति कदाचित् कस्यचित् पार्श्वे कदाचित् अन्य अन्यत् कुत्रचित् कुत्रचित् कुतश्चित् तत्र बहु धनं लभ्यते इति चिन्तयतु तदानीं सः बहु बहु सन्तुष्टः भवति तस्य पादः भूमौ न भवति उपरि एव भवति तथापि न भवेत् यदा कदाचित् क पुरुषः बहु दुःखितः भवति केनचित् कारणेन सः किमपि कर्तुं न इच्छति तत्र जीवितुम् अपि न इच्छति तथापि न भवेत् सुखं वा भवेत् दुःखं वा भवेत् यशः वा भवेत् अपयशः वा भवेत् सर्वदा अस्माकं मनः समानरीत्या भवेत् अपि च तत्र एका कथा अस्ति अत्र एक इत्युक्ते अत्र बुद्धः महा तत्र बुद्धः आसीत् खलु गौतमबुद्धः सः एक एकदा एकत्र सः गतवान् तत्र भक्तजनाः सर्वे तं द्रष्टुं तत्र सर्वे आगतवन्तः तत्र एकः व्यापारी अपि आसीत् बह, बहु कुटिलः आसीत् अपि च सः तस्य व्यवहारः सम्यक् नासीत् सः तु पतितः आसीत् तस्य ये मित्रजनाः सन्ति ते सर्वे अपि बुद्धस्य भक्ताः जाताः अनेन कारणेन सः व्यापारी बहु कुपितः आसीत् मम मित्रजनाः सर्वे गताः मम व्यवहारार्थं कोऽपि नास्ति इदानीम् अहं तु एकाकी अस्मि इति कृत्वा सः बहु कुपितः आसीत् सः अपि बुद्धं द्रष्टुम् आगतवान् आसीत् सः <tah>, uh, बुद्धस्य दर्शनं कृतवान् तर्हि बुद्धस्य समीपे गत्वा सः उक्तवान् सः क्रोधितः बहु क्रोधितः सो बहु कुपितः भूत्वा बहु किमपि वदति बहु किमपि क्रोधरूपेण बहु किमपि वदति पुनः पुनः वदति बुद्धः केवलं तत्र तत्र तथैव स्थितवान् आसीत् किमपि न उक्तवान् एवं स्थितवान् तर्हि तत्र व्यापारी बहु कुपि कुपितः आसीत् सः पृष्टवान् अहं बहु किमपि वदामि अहं कटुवचन कटुवचनानि वदामि परन्तु भवान् किमपि न वदति किमर्थं भवान् तूष्णीं तत् तत्रैव तिष्ठति किमपि न वदति किमर्थम् इति सः पृष्टवान् तदानीं बुद्धः उक्तवान् अस्तु भवान् यद् यद् वक्तुम् इष्टवान् तत् सर्वं समाप्तं वा इति सः पृष्टवान् तर्हि व्यापारी व्यापारी उक्तवान् इतोपि अस्ति तर्हि इतोपि इतोपि किञ्चित् पुनः पुनः कुपितः पुनः पुनः कटुवचनानि तेन कटुवचनानि तेन उक्तानि तदानीम् अन्ततो गत्वा इदानीं सः व्यापारी उक्तवान् इदानीं समाप्तं यत्किमपि मया वक्तव्यं तत्सर्वं मया उक्तम् इदानीं सर्वं समाप्तम् इति तेन उक्तं तदानीं बुद्धः उक्तवान् अस्तु इदानीं सः पृष्टवान् बुद्धः पृष्टवान् व्यापारीन् पृष्टवान् यदि भवान् दानं ददाति तदानीं दानस्य यद्वस्तु अस्ति तद् तस्य स्वामित्वं कस्य भवति इति सः पृष्टवान् तदानीं व्यापारी उक्तवान् ओ यस्य यस्य कृते अहं ददामि अथवा यस्मै अहं ददामि तस्य एव स्वामित्वं भवति मम तु स्वामित्वं नास्ति मया तु दत्तम् इति कृत्वा अन्यस्य एव स्वामित्वमस्ति इति उक्तवान् तदानीं बुद्धः पृष्टवान् पुनः अस्तु यदि यस्मै भवान् ददाति सः न गृह्णाति यद् भवान् ददाति यद्वस्तु भवान् ददाति तद् तत् पुरुषः पुरुषः न गृह्णाति तदानीं तस्य वस्तुनः स्वामित्वं कस्य भवति इति बुद्धेन पृष्टं तदानीं सः व्यापारी उक्तवान् यदि तद् अन्यः पुरुषः मम वस्तु न स्वीकरोति तदानीं तस्य स्वामित्वं मम एव भवति इति उक्तवान् अस्तु एवं अत्र एतावता भवान् यत्किमपि उक्तवान् मया न गृहीतं यद् यद् किमपि दत्तवान् तद् मया न गृहीतं तर्हि इदानीं तस्य स्वामित्वं कस्य भवति इति सः पृष्टवान् तदानीं तत्र व्यापारी किमपि स वक्तुं न शक्नोति सः तु लज्जितः अभवत् एवं रीत्या यदा अन्यैः अन्यैः कटुवचनानि उच्यन्ते तदानीम् अस्माभिः किमपि न कर्तव्यम् यदी तस्य ग्रहणं न कुर्मः तदानीं तत्तु अस्माकं तस्य अस्माकं मनसः विषये हानिः भवति अस्माकं मनः अपि सन्तुलितं भवति एवं रीत्या सर्वदा यत्र अ, यत्र क्लेशः भवति कष्टाः भवन्ति लोके यस् यदा कदाचित् अन्यस्य अनुचितव्यवहारः भवति अस्माकं कृते तदानीम् अस्माकं मनसि विपरीतभावना अस्माभिः स्वीकार्या तेन किं भवति इति इति चेत् अस्माकं मनसि मानसिकशान्तिः भवति यतोहि वयं सर्वे अपि मानसिकशान्तिमेव इच्छामः खलु कदाचित् अपि अस्माकं मनः उपरि गच्छति अधोभागे गच्छति इति तथा न इच्छामः अधोभागे गच्छति तु कदापि न इच्छामः मनः अधोभागे गच्छति चेत् तदानीं तत्र अस्माकं व्यवहारः सम्यक् न भवति यत्किमपि कार्यं वयं कुर्मः तत्र सम्यक्तया कर्तुं न शक्नुमः इति कृत्वा अस्माकं मनः सर्वदा सन्तुलितं भवेत, तदर्थम् अस्माभिः यन् यत्नः करणीयः अत्र यत्किमपि उक्तं तत्सर्वं तत्र एवमेव भवति इति नास्ति तत्र अस्माभिः सङ्घर्षः करणीयः यत् यदुक्तं तद् विचिन्त्य सङ्घर्षः करणीयः मैत्रीभावना करुणा करुणा भवेत् अन्यस्य सम्यक् कार्यमस्ति चेत् अस्माकं हर्षः भवेत् अन्यं प्रति द्वेषः न भवेत् सुखदुःखेषु समं भवेत् पुण्यं वा पापं वा यत्किमपि भवतु सु समानम् अस्माकं मनः भवेत् तदानीं किं भवति इति चेत् अस्माकं चित्तं चित्तस्य प्रसाधनं भवति अस्माकं चित्तं शान्तं भवति सन्तुष्टं भवति इति उक्त्वा इदानीम् अस्माकं करपत्रं प्रति गच्छामः कोपि प्रश्नः वा दृश्यते खलु अस्तु तर्हि इदानीम् अस्माकं विषयः अस्ति अयं संसारः कः इति विषयः अस्ति अस्माभिः उक्तं यत् ब्रह्मणः ब्रह्म अनादि अनन्तसप्ता वर्तते इति उक्तम् तर्हि अत्र यदा सृष्टिः जायते तदानीं ब्रह्म स एव तत्र तस्य विभागः भवन्ति जीवात्मा जीवात्मारूपेण तर्हि जीवात्मा जीवात्मनः सम्पर्कः तत्र मनुष्येन सह भवति अन्येन जीवेन सह भवति इत्युक्ते तत्र संयोगः भवति जीवात्मनः अपि च मनुष्यस्य अस्माभिः यत् तत्र मनुष्यः मनुष्यस्य कारणं भवति परन्तु भ्रमणः कारणं नास्ति जीवात्मनः अपि कारणं नास्ति प्रथमतया आत्मनः आकाशः सम्भूतः आकाशात् वायुः वायोः अग्निः अग्नेः अपः अभ्यः अद्भ्यः पृथ्वी इति पृथ्वीतः अन्ये जीवाः तस्यानि पशवः तदनन्तरं मानवाः उत्पन्नाः इति उक्तं तत्र मानवेषु यद् चैतन्यं वर्तते तद् चैतन्यं पृथ्वीतः एव आगतं पृथिव्यां कुतः आगतम् इति चेत् क्रमेण आकाशतः तत्र चैतन्यमागतम् आकाशे चैतन्यं कुतः आगतम् इति चेत् साक्षात् ब्रह्मणः एव चैतन्यम् आगतं तर्हि ब्रह्म एव अस्माकं जगतः कारणम् इति अस्माभिः उक्तं तर्हि अत्र ब्रह्म तु सगुणब्रह्म निर्गुणब्रह्म इति द्वेधा अस्ति तर्हि निर्गुणब्रह्मणि प्रकृतिः वर्तते परन्तु तस्य प्रकृतेः गुणस्य प्रभावः पुरुषस्य उपरि न भवति यतोहि पुरुषेण अनुमितिः न दीयते परन्तु सगुणब्रह्मणि तत्र पुरुषः अनुमिति द दा... अनुमितिं ददाति इति कृत्वा प्रकृतेः गुणाः पुरुषं गुणान्वितं करोति इति कृत्वा इदं जगत् परिदृश्यमानं जगत् दृश्यते अत्र भिन्नभिन्न भिन्नभिन्न जीवाः भिन्नभिन्नवस्तूनि भिन्नभिन्नरूपेण सन्ति अस्मिन् जगति तर्हि तत्र बिन्न बिन्न बिन्न अस्य जगतः निर्माणार्थं सामग्री कुतः कुतः आगता इति चेत् यता घटस्य निर्माणार्थं सामग्री अपेक्षिता तथैव अस्य जगतः निर्माणार्थं सामग्री कुतः आगता इति चेत् ब्रह्मविहाय अन्यत् किमपि नास्ति तर्हि अत्र सामग्री तु पुरुषः एव सामग्री अस्ति प्रकृतिः विशिष्टा सक् शक्तिः वर्तते तेन पुरुषं पुरुषस्य प्रकृतिः पुरुषाय आकृतिं ददाति इति कृत्वा पुरुषः एव जगत् दृश्यते इति अस्माभिः उक्तम् अत्र अस्मिन् जगति पुरुषः एव अस्ति अन्यत् किमपि नास्ति पुरुषः प्रकृतिः इति द्वे सत्ते एव सः न अन्यत् किमपि नास्ति इत्यपि उक्तम् तर्हि अत्र एतदपि अस्माभिः चिन्तितमस्ति एत, यत् अत्र एतत् जगत तत्र सामग्री इति सामग्री तु तर्हि अत्र अस्मिन् जगति पुरुषः एव अस्ति अन्यत् किमपि नास्ति स यत्किमपि अस्ति जगति सर्वं पुरुषः एव पुरुषं विहाय अन्यत् किमपि नास्ति इदं परि दृश्यमान परिदृश्यमाने जग जगति यत्किमपि दृश्यते तत्सर्वं पुरुषः एव पुरुषः एव तादृश आकाररूपेण अस्ति प्रकृतेः प्रभावेन इति एतावता अस्माभिः चर्चितम् इदानीं किञ्चित् अग्रे गच्छामः ओके okay, इतः आरभ्य भगिनि किं सरिताभगिनी पठितुमिच्छति वागुणब्रह्मण एव सर्वं जगत सर्वं जगत् निर्मितम् सगुणब्रह्म एव एतत् षष्टिरूपेण प्रकटितं वर्तते तर्हि सगुणब्रह्म सर्व्यापि इति कथनम् अशुद्धम् अस्ति खलु पुस्तके ब्रह्म वर्तते इति कथनेन पुस्तकं पृथक् सत्ता वर्तते ब्रह्म तां सत्तां व्याप्नोति इत्यर्थः एतेन पृथक् पृथक् सत्ताद्वयस्य आभासः भवति ब्रह्म च सगुणब्रह्म बुस्तकम दृश्य अशुद्धम यहाँ पूर्वमेट स्थापित ब्रह्मणव सर्व आकार गृह अस्त अतः सम्यक्तया वक्त वक्त युस्तक ब्रह्म अस्थ् ब्रह्मण एवस्त अभी आकारः गृहीतः इति अनेन ज्ञायते चेत् पुस्तकम् ब्रह्म च द्वे पृथक् सत्ताद्वयम् नास्ति अपि च ब्रह्मणः पूर्वम् पुस्तकम् नासीत् एष एव सम्यक् अभिव्यक्तिः अस्ति यतः ब्रह्म हि अनन्तम् नित्यञ्च तस्मात् परम् पूर्वं वा किमपि न विद्यते ब्रह्मणः पूर्वम् पुस्तकस्य अस्तित्वम् न भवितुम् अर्हति स्म वस्तुतः ब्रह्मणः पूर्वं किमपि न भवितुम् अर्हति स्म प्रत्येकं रजसः बिन्दुः केवलं अत्र सगुणब्रह्मण एव सर्वं जगद्रूपेण आकृतिं गृह्णाति इति उक्तम् सगुणब्रह्मणस्य रूपे एव षष्टिरूपेण परिवर्तितः अस्ति अतः यदि वयं वदामः ब्रह्म सर्वं व्याप्नोति तदा तु द्वे सत्ये स्तः एकं व्याप्य एकं व्यापकम् इति द्वे सत्ये वर्तते इदं कथनं तु अशुद्धम् अस्ति ब्रह्म एव एक एव सत्ता अस्ति स ब्रह्म एव अन्यरूपेण परिवर्तते विहाय किमपि अन्यं न भवति ब्रह्मस्य पूर्वं पश्चात् वा किमपि न वर्तते यदि अ वयं वदामः पूर्वं पुस्तकम् अस्ति तदा तु ब्रह्मस्य अस्तित्वं नित्यम् अनन्तं वा न वर्तते अतः ब्रह्म एव अ नित्यं वस्तु अस्ति सः पूर्वं पश्यात् सर्वदा अस्ति स एव अन्यरूपेण परिवर्तनं प्राप्नोति तं विहाय किमपि सत्ता नास्ति द्वे सत्ये न स्तः अपि अपि तु ब्रह्म एव वर्तते स एव अन्यरूपेण आकृतिं गृह्णाति समीचीनं धन्यवादः सम्यक्तया उक्तवती अत्र केवलं केवलं वक्तुमिच्छामि स्मारयितुमिच्छामि ब्रह्म इति नपुंसकलिङ्गशब्दः अस्ति ब्रह्मणः इति षष्ठिभक्तिः ब्रह्मस्य <स्थिये> न ब्रह्मणः अस्तु समीचीनं तर्हि इदानीम् अत्र अस्मिन् पुस्तके ब्रह्म वर्तते इति वदन इति वदनम् अपि च पुस्तकं ब्रह्म वर्तते इति वदनम् अनयोः महान् भेदः अस्ति इत्युक्ते पुस्तके ब्रह्म वर्तते इति यदि वदामः तर्हि तर्हि ब्रह्म सगुणब्रह्म सर्वव्यापी इति कथनम् अनुचितम्. यदि वयं वदामः पुस्तके ब्रह्म वर्तते इति वयं वदामः चेत् तदानीं तत्र सगुणब्रह्म सर्वव्यापी इति कथनम् अनुचितं भवति अयमेव मुख्यविषयः प्रधानः विषयः अत्र तर्हि अत्र वार्ता इति चेत् यदि वयं पुस्तके ब्रह्म अस्ति तर्हि तत्र पुस्तके ब्रह्मविहाय अन्यत् किमपि अपि अस्ति इति वयं वदामः खलु पुस्तके ब्रह्मविहाय अन्यत् अस्ति इति वयं वदामः इत्युक्ते सगुणब्रह्म ब्रह्माणं ब्रह्माणं विहाय अन्यवस्तु अस्ति पुस्तके इति वयं वदामः तर्हि यदि वयं वदामः पुस्तके सगुणब्रह्म वर्तते तर्हि तत्र गुणब्रह्म ब्रह्मविहाय अन्य अन्य सामग्री अपि तत्र वर्तते इत्यर्थः आयाति एतत्तु न केवलम् अस्मिन् सगुणब्रह्म वर्तते परन्तु अन्यवस्तु अपि तत्र वर्तते इति अर्थः अस्ति अयमेव तत्र भेदः अस्ति अयमेव भेदः अस्ति अस्माभिः किम् तत्र च तत्र ब्रह्म एव सामग्री अस्ति यस्मात् इदं जगत निर्मितं इति अस्माभिः उक्तम् अन्यत् किमपि नासीत् इति उक्तं खलु ब्रह्म एव सामग्री यस्मात् ब्रह्म एव सामग्री अस्ति तस्मात् सामग्री तया सामग्र्या एव इदं जगत् निर्मितम् इति उक्तम् तर्हि तत्र अन्या सामग्री नास्ति इति अर्थः अतः पुस्तके ब्रह्म अस्ति इति वयं वदामः चेत् अन्या सामग्री अस्ति इति अर्थः याति तत्तु समीचीनं नास्ति यतो यतोहि एका एव सामग्री अस्ति जगतः निर्माणार्थं तत्तु ब्रह्म एव अतः तादृशव्यवहारः अस्माभिः तादृशवाक्यं न वक्तव्यं यदि पुस्तके ब्रह्म अस्ति इति वयं वदामः इत्युक्ते तदानीं ब्रह्म सर्वव्यापि नास्ति थी थी इति वयं वदामः इति कृत्वा अत्र य यद् वक्तव्यं यदि वयं तर्हि ब्रह्म पुस्तकमेव ब्रह्म इति वक्तव्यं पुस्तकब्रह् पुस्तकं ब्रह्म मम पुरतः यत्किमपि अस्ति मम पुस्तकम् अस्ति पुस्तकं ब्रह्म अस्ति तत्र सङ्गणकम् अस्ति सङ्गणकं ब्रह्म अस्ति दूरवाणी अस्ति दूरवाणी ब्रह्म अस्ति यत्किमपि मम यत्किमपि अस्ति तत् सर्वं ब्रह्म एव ब्रह्मविहाय अन्यत् किमपि नास्ति तत्र यस्मात् इदं जगत् तत्र यस्मात् अस्य जगतः निर्माणं भवितुम् अर्हति इति कृत्वा अत्र सम्यक्तया स्पष्टतया वक्तव्यं पुस्तके ब्रह्म अस्ति इति न वक्तव्यं परन्तु पुस्तकं ब्रह्म अस्ति इति वक्तव्यं यतोहि पुस्तके ब्रह्मविहाय अन्यत् किमपि नास्ति ब्रह्मविहाय अन्यत् किमपि नास्ति अस्तु सर्वं ब्रह्मतः एव सर्वं निर्मितम् अस्ति इदं पुस्तकमपि ब्रह्म अन्यत् यत्किमपि अस्ति सर्वमपि ब्रह्म इति वक्तव्यम् तदेव तस्य एव स्पष्टीकरणम् अत्र भवति अत्र अस्मिन् जगति प्रत्येकं बिन्दुः केवलं ब्रह्म एव अस्ति ब्रह्मविहाय अन्यत् किमपि नास्ति अस्तु इदानीं किञ्चित् अग्रे गच्छामः तर्हि किं सरलभक्नि पठितुमिच्छति वा अहं भगिनि पठ पठितुं शक्नोमि अस्तु ब्रह्म सर्वसृष्टेः कारणं ब्रह्म एव च प्रकृतेः पुरुषस्य च सामूहिकं नाम्ना तयोः कः सदा सृष्टिः निर्माति तयोः कः तदा सृष्टिं निर्माति प्रकृतिपुरुषयोः मध्ये प्रकृतिः द्रव्यं वा पुरुषः द्रव्यं वा यस्मात् इयं सृष्टिः निर्मिता भवति इति अस्माभिः निर्धारी निर्धारणीया प्रकृतिः शक्तिः कश्चन सिद्धान्त पुरुषे गुणसम्पादनम् एव प्रकृतिः एकमात्रं कार्यम् अस्ति प्रकृतिः केवलम् एका शक्तिः अस्ति अतः सा आकारं गृहीतुं न शक्नोति अन्यथा सा स्वस्या गुणसम्पादनशक्तिं जहाति अपरञ्च यदि प्रकृतिः सृष्टिः भवति तर्हि आकारं रूपं च दातुम् अन्या काचित् शक्तिः अथवा कश्चन सिद्धान्तस्य अन्या एका एव सता ब्रह्मणी वर्तते सा सता अस्ति पुरुषः सः पुरुषः एव प्रकृतेः कृते रूपं दातुं शक्नुयात् परन्तु प्रकृतिया गुणान् गुणान् वयम् अप्राप्य पुरुषः स्वस्य अस्तित्वम् अपी न ज्ञातुं शक्नोति अतः पुरुषः प्रकृत्यै सृष्टिरूपं दातुं न शक्नोति यतः एतादृशं महत् महत्तत् कार्यं कर्तुं न शक्नोति अनेन स्पष्टं भवति यत् प्रकृतिः सृष्टिः आकारं न तथा च एतेन केवलं पुरुष एव अवशिष्टः यः एतानि रूपाणि ग्रहीतुं शक्नोति स्म अतः यस्मात् द्रव्यात् सकलः सृष्टिः जाता तद्द्रव्यं पुरुषः एव प्रकृतिः पुरुषं गुणान्वितं कृत्वा पुरुषे भिन्नरूपाणि ददाति पुरुषः चेच्छया प्रकृतेः परिकल्पनानाम् अनुसरणं करोति यथा कुम्भकारः स्वस्य परिकल्पना अनुसारेण मृत्तिकापिण्डम् आकारयति तथा पुरुष पुरुषतुल्यः अस्ति अपि च कुम्भकारः च शक्तिं ददाति सः प्रकृति तुल्यः अस्ति तथैव प्रकृतिः स्वेच्छा अनुसारम् एतान् सर्वान् आकारान् वरुश् पुरुषाय ददाति जगतः निर्माण अर्थं पुरुषः स्व इच्छया प्रकृतेः अनुसरति अस्य सृष्टिः निर्माण अर्थम् इदानीं प्रश्नः अस्ति पुरुषः सृष्टिः निर्माति वा प्रकृतिसृष्टि निर्माति वा पुरुषप्रकृत्योः यदि संयोगः अस्ति तदानीं सृष्टिनिर् निर्माणं भवति यदि वयं केवलं ब्रह्म इति पुरुष स्वीकुर्मः कुर्मः त वयं पूर्वं जा जानीमः पुरुषः निरा, निराकार निर्विज्ञान निर्ज्ञानम् इति सर्वं ज्ञा ज्ञाता अस्ति किन्तु कर् कर्तुं किमपि न कर्तुं कर शक्नोति इति तस्य सामर्थ्यम् अस्ति स्वस्य शक्तिः स्वस्य किं रूपम् अस्ति त तत् अपि न ज्ञातुं शक्नोति ब्रह्मा यदि प्रकृतिः तदा यदि प्रकृतिः वयं जानीमः प्रकृतिः सुप्ता अस्ति पुरुषः पुरुषः सुप्तः अस्ति प्रकृतिः अपि सुप्ता अस्ति यदि प्रकृतिः प्रचलति तदानीं पुरुषं यदि गुणान्वितं करोति तदा एव यद् यद निर्गुण ब्रह्म अस्ति तत् सगुणब्रह्म वयं वदामः तत् सगुणब्रह्म एव सृष्टि सृष्टेः निर्माणं कर्तुं शक्नोति प्रकृतिः स्वयं आ, एक आ, स्वयम् एक स्वयम् एक, एकाकी एक, एक, एक, एक भूत्वा सृष्टिं न कर्तुं शक्नोति तस्य सामर्थ्यं प्रकृत्यां नास्ति प्रकृति पुरुषं यदि गुणान्वत् करोति तर्हि तदा हि प्रकृत्याः ये द्वित्रयः गुणाः सन्ति समो रजो सत्वं अनेन पुरुषः गुणान्वितं भवति तत् तदनन्तरम् एव पुरुषः अपादानकारम् अपि निर्मितं कारणं सृष्टिः निर्माणस्य कृते भवति इति अस्ति तत् प्रकृतिः शक्ति प्रकृ प्रकृतेः शक्तिः कारणं यदि पुरुषगुणान्विता भवति तदानीं सृष्टिनिर्माणं भवति सृष्टेः निर्माणं भवति इति यथा आ, वयं कुम्भकार यदि वयं मृत्तिका उपयोगं कृत्वा पिण्डं पात्रं निर्माति तत् कुम्भकार मृत्तिका ए द्वयम् मृत्तिका इति अपादानकारणं भवति कुम्भकारः इति निमित्तकारणं भवति द्वयं भिन्नौ स्तः किन्तु यदि पुरुषः अस्ति प्रकृतिः अस्ति यदि पुरुष पुरुषगुणान्वित् भवति तदानीं तत् सगुणब्रह्म एव अपादानकारणमस्ति मृत्तिका अपि तस्मात् भवति कुम्भकारः अपि सः एव भवति भेदः अस्ति कुम्भकार पात्र निर्माणम् अपि सृष्टेः निर्माता यत् पुरुषः सगुरब्रह्म ब्रह्म भवति इति अस्ति अपि कदा इति निर्माणं करोति इति स्वच्छ स्व इच्छा इति यदि यदि गुणानिक् भवति ब्रह्म निर्गुणब्रह्म सगुणब्रह्म तदानीं स्व इच्छा आगच्छति तस्य मनसि तदानीम् एव इति निर्माणस्य प्रक्रिया भवति तदनन्तरम् <laughs> स्वामेश्ण, स्वामेश्ण, स्वामेश्ण, स्वामेश्ण। okay. इति भगिनी समीचीनं समीचीनं भगिनि समीचीनम् इत्युक्ते एतावत् अस्माभिः ज्ञातं यत् ब्रह्म एव जगतः कारणम् इति ज्ञातं ब्रह्म इत्युक्ते प्रकृतिपुरुषयोः अनयोः द्वयोः मिलित्वा नामकरणमस्ति ब्रह्म इति नामकरणं तर्हि तयोः मध्ये प्रकृतिः पुरुषः अनयोः मध्ये केन सृष्टेः निर्माणं क्रियते इति प्रश्नः तर्हि प्रकृतिः इति अद्वितीया शक्तिः इति वयं ज्ञातुं शक्नुमः तादृशतया शक्त्या जगतः निर्माणं कर्तुं शक्यते वा इति चेत् यदि प्रकृति एव जगद्रूपेण आकारं स्वीकरोति इति चिन्तयामः चेत् चेत् तदानीम् अन्येन प्रकृतेः प्रकृतेः गुणान्वयः अन्येन, अन्येन करणीयं भवति तर्हि तान्येन तस्य कृते शक्तिं दातव्यम् तर्हि सः कः भवितुम् अर्हति इति चेत् तत्र तत्र तु केवलं प्र प्रकृतिः पुरुषः इति द्वौ एव द्वे एव सत्य सः तर्हि पुरुषेण प्रकृतेः कृते शक्तिं शक्तिः दत्ता वा इति चेत् तर्हि तथा न भवितुम् अर्हति यतोहि प्रकृतेः प्रभावं विना पुरुषः स्वस्य अस्तित्वमपि सः ज्ञातुं न शक्नोति अतः कथं वा प्रकृतेः आकारं दातुं शक्नोति तथा न भवितुम् इति कृत्वा अत्र पुरुषेण एव साक्षात् जगद्रूपेण अकारं पुरुषेण एव स्वीकृतमस्ति प्रकृतिः केवलं पुरुषस्य गुणान्वयं करोति प्रकृतिः इति कृत्वा तत्र प्रकृतिः एव सामग्री अस्मात् यस्याः जगतः निर्माणं जातं तर्हि तदुक्तं तद तद तर्हि तत्र तत्र पुरुष पुरुषः अनु अनुमितिः पुरुषेण अनुमितिः दातव्या तदानीमेव प्रकृतिः किमपि कर्तुं शक्यते पुरुषेण अनुमितिः न दीयते चेत् तदानीं प्रकृत्या किमपि कर्तुं न शक्यते यदा पुरुषः अनु अनुमितिं ददाति तदानीं प्रकृतिः पुरुषस्य गुणान्वयं करोति तदानीं प्रक् पुरुषः जगत् जगति यानि वस्तूनि सन्ति तेषां रूपाणि पुरुषः स्वीकरोति तेषाम् आकारं स्वीकरोति पुरुषः यथा एकः कुम्भकारः अस्ति सः मृत्तिकां स्वीकृत्य घटरूपेण आकारं ददाति तत्र मृत्तिका पुरुषः इति वयं चिन्तयितुं शक्नुमः तत्र यः कुम्भकारः अस्ति यः शक्तिं ददाति तत्र पुकुम्भकारः प्रकृतिरूपेण अस्ति इति वयं चिन्तयितुं शक्नुमः एवम् अत्र जगति प्रकृतिः एव तत्र आकारं ददाति पुरुषं स्वीकृत्य पुरुषस्य आकारं ददाति इदं जगत् अस्य जगतः निर्माण निर्माणार्थम् इति वक्तुं शक्नुमः स्पष्टमस्ति वा अत्र कोपि प्रश्नः अस्तु इदानीम् अग्रे गच्छामः तत्र शान्ताभगिनी पठितुमिच्छति वा पठामि पुरुषः एव स पुरुषः एव सर्वेषु सृष्टिरूपेषु प्रक्षिप्तः वर्तते सः एव द्रव्यम् यस्मात् सर्वं निर्मितम् अस्ति परन्तु पुरुषस्य चैतन्यं पुरुषः पुरुषः तु चैतन्यं पुरुषस्तु पुरुषस्तु चैतन्यम् अतः अस्यां सृष्टौ सर्वस्य चैतन्यं वर्तते जगति किञ्चिदपि नास्ति यत् स्थूलं निर्जीवम् अथवा चैतन्यहीनम् अस्ति घनिष्ठिका ऋतकाष्ठम् अथवा पृथिवी या सामान्यतया स्थूला निर्जीवा इति गण्यते सा सर्वथा तथा भवति ते सर्वे अपि चैतन्यसत्तायाः अर्थात् पुरुषस्य रूपाणि सन्ति ते स्थूलाः चैतन्य भर्ती तथा एक निर्जीवा चैतन्यलेश प्रकृते आज्ञा अस्या दशायां प्रकृति पुषं स्थापित दशायां एक रूपमस्ट इिका इिका प्रकृतिया गुणान्वता जथा च पुषा प्रकृते इच्छा तथा पुषा प्रकृते इच्छा तस्यावस्थम ठीक प्रकृति अषं इूपे स्थाप पुषा स्व स्थूल निर्जीव पदार्थ मिकावि इस्टिका, स्वस्थया चैतन्य विस्तर कर्म असमर्थ निर्जीवावस्था असमर्था यकृतिगुन गुणाविक प्रकृते प्रभावे सा निर्जीवा स्थूला चुश्य चैतन्यमस् अतोऽस्मिन् लोके स्थूलं किमपि नास्ति सर्वाणि वस्तूनि चैतन्यस्य अथवा पुरुषस्य रूपान्तरितरूपान् रूपान्तरितरूपमेव अस्ति किं वदन्ति चेत् तद् ब्रह्मा एव सर्वं सृ सृष्टिकरोति सृष्टिरूपेषु सर्वेषु पुरुषः एव मुह्यरूपेण रक्षिप्तः भवति किं द्रव्यं निर्माणं भवति किमेव वस्तु जगतां वयं पश्यामः सर्वे स्थूलूपेण घनिष्टूपेण मृतकाष्ट कोपुर चैतन्य वह स्थूल वैतन्यहीना चैतन्यलेशीवा स्थूला दृश्य से प्रकृति विना किमपि रूपं वयं न दृश्यामः चेत् प्रकृतिः एव गुणान्विता जाता कारणेन इष्टिका इष्टिका स्वस्य चैतन्यं नास्ति परन्तु प्रकृते प्रकृत गुणेन तथा चैतन्येन पुष्ठ चैतन्यम इिका जानी प्रकृते प्रभाव प्रभावेन निर्जीवा स्थूला च दृश्य है यदि दस तस् चैतन्यं स्वये अस्त अथस्क स्थूल कि नास्त वस्तूनी चैतन्य पुरुष से रूप अन्तरूपमेव अस्ति पुरुषः सर्वे वस्तूनि अन्तरा अन्तरार्थेन विद्यते इति साध्य समीचीनं भगिनि समीचीनम् इत्युक्ते अत्र सम्यक् भगिनि धन्यवादः अस्मिन् जगति यत्किमपि निर्मितं यत्किमपि दृश्यते तत्सर्वं ब्रह्मरूपमेव भ्रमरूपमेव अत्र भ्रम एव द्रव्यं यस्मात् जगत् निर्मितं वर्तते खलु अतः अत्र जगति किमपि नास्ति यद् चैतन्यं नास्ति यत्किमपि दृश्यते तत्सर्वं चैतन्यस्य परिवर्तितं रूपमस्ति इत्युक्ते जगति वयं किं तत्र इष्टिकां वयं पश्यामः अथवा तत्र पाषाणखण्डं वयं पश्यामः पाषाणखण्डः स्थूल स्थूल स्थूलः अस्ति निर्जीवः इव दृश्यते खलु परन्तु तदपि तदपि सेव परिवर्तितं रूपमस्ति तदपि चैतन्यमेव पाषाणखण्डः अपि चैतन्यं निर्जीवः अस्ति खलु इत्युक्ते तत्र सृष्टिप्रक्रियायां तत्र यदा पुरुषः प्रकृतेः गुणा गुणेन अथवा गुणैः सः स्थूली भवति तदानीं सः पाषाणखण्डरूपेण तिष्ठति निर्जीवः इव तिष्ठति परन्तु वस्तुतः तदपि चैतन्यम् एव तदपि पुरुषः एव अस्मिन् यत्किमपि लोके दृश्यते तत्सर्वं पुरुषस्य एव भिन्नं रूपम् अस्ति पुरुषं विहाय अन्यत् किमपि नास्ति अतः वयं चिन्तयितुं शक्नुमः न चिन्तयितुं शक्नुमः अत्र यत् यत्किमपि अस्ति तत् एव अस्ति इति कृत्वा तत् नास्ति इति न अत्र यत्किमपि भवतु नाम इष्टिका भवतु अथवा काष्ठं वा भवतु अथवा तत्र पाषाणखण्डः भवतु यत्किमपि भवतु सर्वं यद्यपि निर्जीवः इव दृश्यते परन्तु वस्तुतः प्रकृतेः गुणस्य प्रभावेन तादृशं तद् परन्तु वस्तुतः तत् पुरुषः एव पुरुषं विहाय अत्र किमपि नास्ति सर्वं पुरुषस्य परिवर्तितं रूपम् इति अत्र उक्तमस्ति तर्हि इदानीं किञ्चित् गच्छामः तत्र किं सरिताबद्नि अग्रिमं करोति वा यहाकृत गुणावितता स्थूल दृश्य पूर्व उपादित यहाँ चैतन्य विस्तर कर्म नक्यूनतरम चैतन्यं धारतीस पुरुषः क्रमेण अधिकाधिकः स्थूलः दृश्यते अन्ते च सः क्षितितत्त्वस्य अथवा पृथिव्याः स्थूलतम् रूपम् गृह्णाति यत्र वयम् तम् निर्जीवस्तुरूपेण पश्यामः तत्र तस्य चैतन्यम् सर्वथा सुप्तम् अस्ति एवम् प्रकृतेः प्रभावः यदा अधिकः भवति ष अ स्ूल दृश्य प्रभाव न्यूनर तू सूक्ष्मतर इन सहषा सूक्ष्म सत्ता अस्त प्रकृत्या किचि स्थूला वर्त यदा प्रकृति पुषं गुणा तदा पुषा स्थूलरूपेण दृश्यते किन्तु तस्य चैतन्यं सर्वथा भवति एव स जगति किञ्चिदपि वस्तु अस्ति तत्तु चैतन्यम् एव वर्तते यतो हि सः वस्तु पुष् पुरुषेण एव निर्मितम् अस्ति अतः चैतन्यं तु सर्वं वर्तते किन्तु दृश्यमानरूपेण Uh, चैतन्यस्य विस्तारं न भवति अतः वस्तु स्थूलरूपेण दृश्यते तत्र प्रकृत्याः प्रभावम् अधिकं वर्तते यदा प्रकृतयाः प्रभावः न्यूनम् अस्ति तद्वस्तु किञ्चित् सूक्ष्मतरः अस्ति यदा प्रकृतयः प्रभावः अधिकम् अस्ति तत् तदा वस्तु स्थूलरूपेण वर्तते किन्तु वास्तविकरूपेण सर्वदा चैतन्यं वर्तते एव यतोहि सर्वं वस्तु पुरुषेण चैतन्यम् एव निर्मितम् अस्ति समीचीनं सम्यक् सम्यक्तया उक्तवती तर्हि अत्र अस्माभिः उक्तं पुरुषः एव सामग्री अस्मा यस्याः जगतः निर्माणं जातम् इति उक्तं प्रकृतिः तु अद्वितीया बलम् अस्ति तर्हि यदा यदा पुरुषः इष्टिकारूपेण भवति तदानीम् इष्टिका इष्टिकावत् तिष्ठति यावत्पर्यन्तं तत्र अन्या शक्तिना न आगच्छति येन तस्य परिवर्तनं तस्याः परिवर्तनं भवितुम् अर्हति अत्र अस्माभिः स्मर्तव्यं यत् अत्र बुद् अस्मिन् जगति बुद्धिशक्तिः तु अत्र अत्र या प्रक्रिया अस्ति तत्र बुद्धिशक्तिः तु पुरुषः एव अस्ति प्रकृतिः स्वस्याः कार्यं सा परन्तु सा तु मास्टर्मैण्ड् नास्ति अत्र अत्र मास्टर्मैण्ड् तु पुरुषः अस्ति प्रकृतिः तु तत्र बलम् अस्ति यदा पुरुषः अनुमितिं ददाति तदानीं प्रकृतिः स्वस्य कार्यं स्वस्याः कार्यं सा करोति यद् यत् यद्यत् यद, यद करणीयं तत् सा सा करोति येन अत्र जगति यत्किमपि अस्ति तत्तु चैतन्यम् अस्ति इव न भासते परन्तु अत्र स्मर्तव्यं यत् अत्र जगति चैतन्यं विहाय अन्यत् किमपि नास्ति चैतन्येन एव सर्वं निर्मितं सर्वं चैतन्यम् अतः अत्र जगति किमपि स्थूलम् न मन्तुं शक्यते यद्यपि स्थूलम् इव भासते इत्युक्ते तत्र चलनं नास्ति किमपि नास्ति इनानिमेट् तथा तथा तिष्ठति परन्तु तदपि इनानिमेट् नास्ति क्रूड् दृश्यते स्थूल स्थूलः एव दृश्यते परन्तु स्थूलं नास्ति सर्वं जगति पुरुषेण एव सर्वं निर्मितमस्ति अत्र स्थूलं स्थूलं स्थूलं सूक्ष्मं सूक्ष्मः स्थूलः इति अत्र उक्तमस्ति तत्र यत्र चैतन्यम् अधिकम् अस्ति तत्र सूक्ष्मः इति वयं यत्र अधि अधिकं न दृश्यते इत्युक्ते यदा क्षितितत्त्वमस्ति खलु क्षितितत्त्वं सालेज् मेटर् तद् यदा पुरुषः प्र पु प्रकृतेः प्रभावेण अधिकप्रभावेण स्थितितत्त्वरूपेण तिष्ठति तदानीं निर्जीवः एव तिष्ठति तदानीं तत्र चैतन्यम् वा इति संशयः भवति यथा पाषाणखण्डः पाषाणखण्डे चैतन्यं नास्ति पुरुषः नास्ति इति भासते परन्तु यदा शुनके वा मनुष्ये वा वयं पश्यामः तत्र चैतन्यम् अस्ति पुरुषः अस्ति इति स्पष्टं भवति परन्तु यत्र प्रकृतेः प्रभावः अधिकः भवति तद्वस्तु इतोपि स्थूलतरं भवति यत्र प्रकृतेः प्रब प्रभावः अधिकः प्रभावः नास्ति तदानीं तद्वस्तु सूक्ष्मतरं भवति इत्यत्र उक्तमस्ति तर्हि इतोपि एकं वयं स्वीकर्तुं शक्यते सरलम्य अग्रिमं करोति अस्तु पुरुषादेव विश्वस्य निर्माणं जातम् अस्ति पुरुष एव तद् आद्य एव विश्वस्य निर्माणं जातम् पुरुषादिना पुरुषादिना पुरुषात् एव पुरुषात् एव विश्वस्य निर्माणं जातम् अस्ति अर्थात् यदा पुरुषः प्रकृत्या गुणान्वितः भवति तदा स स्व आत्मना जगत् निर्मासि पुरुषः सूक्ष्मसता वर्तते इति वयं जानीमः अयं विषयः विचाररूपेण एवं प्रशंसितुं शक्यते तथापि चन्द्र सूर्यनक्षत्रग्रहा वायुमण्डलं पृथ्वी च ये सूक्ष्मपुरुषात् निर्मिताः ते सर्वे अपि सृष्टौ लभन्ते सूक्ष्मतया एषा सृष्टिः निर्मिता क्रमेण स्थूलाकारं प्राप्य इति अस्माभिः अङ्गीकर्तव्यः पुरुषः सूक्ष्म इति युक्तया वयं पूर्वमेव निरूपितवन्तः अतः यदि स्थूलजगत् अस्मात् सूक्ष्मसतायाः निर्मितम् अस्ति तर्हि अस्य जगतः बीजम् अस्यां सूक्ष्मसतायां विद्यमानं स्यात् प्रकृत्या सूक्ष्मसता गुणान् प्राप्य अस्मिन् विस्तृते जगति अङ्कुर अङ्कुरयति तथैव क्षीरात् वयं घृतं प्राप्नुमः यतोहि क्षीरे अन्यरूपेण विद्यमानत्व विद्यमानत्वादि एव विद्यमानत्वात् एव विद्यमानत्वात् एव यदि पुरुषे स्थूलजगतः बीजं विद्यते विद्यते स्म तर्हि पुरुषः सूक्ष्म अथवा केवलं विचाररूपेण अवगम्यमानः इति वक्तुं न शक्यते सूक्ष्म इति उक्ते किमपि यत् केवलं के विचाररूपेण अवगन्तुं वा प्रशंसि प्रश् प्रशंतित प्रशसितुं वा शक्यते अपि च यस्मिन् किमपि स्थूलत्वं नास्ति आकाशभूते कोऽपि प्रतीयमानस्थूलपदार्थः न लभ्यते तथापि च स्थूल इति कथ्यते यतः शब्दः तस्य माध्यमेन गन्तुं शक्नोति आकाशभूतस्य परिमाणं नास्ति नच च ग्राह्यम् अस्ति तत्त्वं भवति तथापि आकाशे तादृशगुणः विद्यते अस्य गुणस्य माध्यम माध्यमेन ध्वनितरङ्गाः गन्तुं शक्यन्ते इत्यतः एव आकाशभूतं स्थूलम् इति उच्यते कस्यचित् वस्तुनः उपस्थित्या यदि तस्य परिचयः भवति तर्हि तत् सूक्ष्मम् अथवा विचाररूपेण अवगम्य गम, अवगम्यमान अवगम्यमानम् इति वक्तुं न शक्यते पुरुषसूक्ष्म इति वक्तुं न शक्यते यदि तस्मिन् जगत् बीजं वर्तते स स्थूल स्यात् परन्तु पुरुषसूक्ष्म इति पूर्वमेव स्थापितम् अतः स्थूलजगत् बीजं तस्मिन् स्थातुं न शक्नोति इदानीमस्ति यदि पुरुषः सूक्ष्मा अस्ति यत् जगत् वयं स्थूलजगत् वयं पश्यामः कथं सूक्ष्मा पुरुषात् स्थूलजगत् निर्मा निर्माणं भवति इति कथं भवति इति वयम् उपरि दृष्टवन्तः यदि प्रकृति सूक्ष्मपुरुषम् Uh, गुणान्वित् करोति तदा यदि गुण पुरुषगुणान्वित् भवति तत् तद, तदानीं प्रकृत्या प्रभावेन स्थूलं पर्व परिवर्तनं भवति यथा वयं पुरुषात् आकाशम् आकाश ये पञ्चभूतानि सन्ति आकाशसूक्ष्मतमम् अस्ति पञ्च भूत ये आकाश ते आकाश आकाशवायु तेज आपृथ्वी पञ्चभूतानि तस् उत्तरोत्तर पृथ्वी उत्तरोत्तर आकाश सूक्ष्ममस्ति पृथ्वी स्थूल स्थूलतर स्थूलतमं भवति आकाश सूक्ष्मतं सू, भवति किन्तु वयं दृष्टवन्तः आकाशात् आकाशे शब्दस्य तन्मात्रा अस्ति आकाश आश्रयं शब्दस्य आश्रयम् अस्ति आकाशे यदि आकाशशब्दं जनाति तत् सूक्ष्मं नभवतम भवितुं शक्नोति अतः आकाशात् अपि कश्चन सत्ता अस्ति तत् तस्मात् सूक्ष्मतर अस्ति तत् सूक्ष्मतर सत्ता वयं पुरुषम् एव वदामः तत् यदि पुरुषः सूक्ष्मः अस्ति गुणानुद्भवति तदनन्तरं यदि इति गुणानुद्भूत्वा भूतानि यत् वयं दृष्टवन्तः पञ्चभूतानि इति यदि शृष्टाकारः भवति तेषां तद् so uh, uh, uh, अवगम्यते अस्माभिः तत् पुरुषः एव बीजरूपेण जगतः बीजरूपेण पुरुषे वर्तते इति भवति so इति वयं पूर्वं दृष्टवन्तः निर्गुण ब्रह्म वा सर्गुणब्रह्म so सद्गुणब्रह्मणि एव बीजरूपेण जगतः जगतः बीजमस्ति तस्मात् एव वृष्टि निर्माणं भवति अङ्कुररूपेण यदि प्रकृत्याः प्रभावमस्ति इति अस्ति साधु भगिनि आमामां आम. सम्यक् भगिनि अत्र केवलं स्पष्टीकर्तुं वक्तुम् इच्छामि अत्र स्थूलः सूक्ष्मः इति वदामः तस्य अर्थः कः इति चेत् स्थूलः इत्युक्ते यत्र तन्मात्राणि गन्तुं शक्नुवन्ति तद् सः सः पदार्थः स्थूलः इति वदामः यत्र तन्मात्राणि गन्तुं न शक्नोति सः पदार्थः सूक्ष्मः इति वदामः यथा पुरुषे पुरुष पुरुषं द्रष्टुं न शक्नुमः यतोहि पुरुषे तन्मात्राणि न सन्ति परन्तु पुस्तकं द्रष्टुं शक्नुमः यतोहि तत्र तन्मात्राणि सन्ति इत्युक्ते तन्मात्र तन्मात्राणि इत्युक्ते शब्दतन्मात्रम् अथवा स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रम् इति अस्माभिः दृष्टं खलु तन्मात्रम् इत्युक्ते आकाश आकाशस्य अस्माकम् अवगमनं भवति यतोहि तत्र शब्दतन्मात्रा तन्मात्रं गच्छति अपि च पुस्तकस्य ज्ञानं भवति यतोहि तत्र रूपतन्मात्रा तन्मात्रमस्ति एवं रसस्य आस्वादः भवति यतोहि तत्र तत्र खाद्यपदार्थे खाद्यपदार्थात् रसस्य आस्वादः भवति यतोहि तत्र रसतन्मात्रम् अस्ति इति एवं यत्र तन्मात्राणि सन्ति केवलं तस्य तदेव तत्र स्थूलः इति वयं वदामः यत्र तन्मात्राणि न सन्ति तद् सूक्ष्मः इति वदामः यथा तत्र तलभग्नि उक्तवती आकाशे एकमेव तन्मात्रम् अस्ति तत्र शब्दतन्मात्रम् इति कृत्वा तद् इतोपि सूक्ष्मः अस्ति वायोः अपेक्षया यतो हि वायौ तन्मात्रद्वयम् अस्ति तत्रमात्रम् अस्ति अपि च तत्र शब्दतन्मात्रमपि अस्ति अपि च वयम् अग्रे पश्यामः चेत् अग्नौ तत्र रूपतन्मात्रम् अपि अस्ति स्पर्शतन्मात्रमपि अस्ति शब्दतन्मात्रमपि अस्ति जले वयं पश्यामः चेत् इतोपि रसतन्मात्रमपि अस्ति तत्र पृथिव्यां वयं पश्यामः चेत् गन्धतन्मात्रमपि अस्ति पृथिव्यां तु पञ्चतन्मात्राणि सन्ति इति कृत्वा पृथ्वी स्थूलतमम् अस्ति पूर्वस्मात् भूतात् एवं रीत्या वयं पश्यामः यत्र तन्मात्राणि सन्ति यत्र तन्मात्राणि गच्छन्ति तद् सः स्थूलः इति वदामः यत्र तन्मात्राणि न भवन्ति तत्र सूक्ष्मः इति वदामः तर्हि पुरुषः एव वास्तविकसामग्री यस्मात् यस्याः जगतः निर्माणं जातं पुरुषे तन्मात्राणि न गच्छन्ति इति कृत्वा पुरुषः सूक्ष्मः अस्ति इदम् इदं परिदृश्यमानं जगत् पश्यामः चेत् अत्र तु सर्वस्य ज्ञानम् अस्माकं भवति तत्र सर्वत्र सं, तन्मात्राणि सन्ति तर्हि अत्र स्थूल जगत् स्थूलं वर्तते तादृशस्थूलस्य जगतः स्थूल स्थूलजगतः बीजं यदि पुरुषे अस्ति तर्हि कथं पुरुषः सूक्ष्मः इति वक्तुं शक्नुमः यथा तत्र घृतं घृतमस्ति घृतं तु क्षीरे वर्तते तर्हि घृतस्य बीजं क्षीरे वर्तते इति कृत्वा यदा घृतस्य मटनं भवति तदानीं तत्र क्षीरस्य यदि मतनं भवति तदानीं घृतम् अस्माभिः प्राप्तुं शक्नुमः तर्हि घृतस्य बीजं क्षीरे वर्तते एवं जगतः बीजं पुरुषे वर्तते यदि जगतः स्थूलभूतस्य जगतः बीजं पुरुषे वर्तते चेत् कथं वा पुरुषः सूक्ष्मः इति वक्तुं शक्नुमः परन्तु अस्माभिः पूर्वम् यत् पुरुषः तु सूक्ष्मः वर्तते इति उक्तम् इति कृत्वा अत्र कश्चन क्लेशः भवति पुरुषः सूक्ष्मः इति अङ्गीकर्तव्यं चेत् तत्र जगतः बीजं तस्मिन् न भवितुम् अर्हति अथवा पुरुषः स्थूलं स्थूलः स्थूलः इति अस्माभिः अङ्गीकर्तव्यम् इति तादृशक्लेशः भवति तादृशसंशयस्य निवारणपरिहारः कथं भवति इति क्षम्यताम् <laughs> अग्रिमपरिच्छेदे उक्तमस्ति तद् अग्रिम वयं पश्यामः एतावता कोऽपि प्रश्नः अस्ति वा एकं यदि भवती प्रारम्भे उक्तवती न सुखदुःखलाभाल् हानि इति जया जयति समत्वं भवति सो एकम् एव उक्तिः अस्ति भगवद्गीतायां समत्वं योगः उच्यते इति समत्वं योगः उच्यते अहं उच्यते समत्वं मनः मनसि समत्वं भवेत् यत् क्रोधः इति भव भवती उक्तवती तस्य अध्याय द्वितीय अध्यायस्य षट् द्वि अधिकं षष्टि वा त्रि अधिकं षड् द्वयं श्लोकम् तत्र कथं क्रोध क्रोधात् समोह समोहात्मृस्मृत्या च बुद्धिनाश भवति तस्मात् mm. पूर्वं कथं क्रोधमागच्छति ध्यायान् विशन्ति mm. विषयान् ध्यायति पुंसः काम उच्यते कामात् तदनन्तरं यदि कामः पूर्तिः न भवति तदानीं क्रोधः भवति यदि कामस्य पूर्तिः भवति तदा लोभः भवति इति अष्टसोपानानि भवन्ति इति तत्र स्पष्टतया दत्तमस्ति इति समीचीनं समीचीनं समीचीनम् इत्युक्ते तत् सर्वम् अवगतं परन्तु व्यवहारे अस्माभिः आने आनेतव्यम् इति खलु अस्माभिः सर्वैः यत्किमपि अवगतम् कथम् आचरणं करणीयं तस्य भवती यत् अवगतं तत्सर्वम् अवगतं परन्तु व्यवहारे कथम् आनेतव्यम् इत्यस्मिन् विषये मया उक्तम् इत्युक्ते तत्र लोके सर्वे जानन्ति क्रोधः न करणीयः इति न जाने जानीमः वा वयं सर्वे जानीमः क्रोधः न करणीयम् इति वयं पुनः पुनः सर्वत्र शृण्मः परन्तु क्रोधः न करणीयः यदा तादृशसन्दर्भः अस्ति चेत् कथं कथं व्यवहर्तव्यम् इति विषये मया उक्तम् अत्र विपरीतभावना स्वीकरणीया इति खलु बहु लाभदायकः अस्ति अयं मया बहु लाभदायकः अस्ति Uh, सर्वदा तत् स्मरामः अपि च व्यवहारे आनयामः चेत् तत्र जीवनं बहु सम्यक् भवति सुखदायकं भव भवति जीवनं तदानीम् अस्माकं मनः सर्वदा शान्तमेव भवति वेरि वेरि इम्पार्टेण्ट् तदानीम् अस्माकं मनः सर्वदा शान्तं भवति इत्युक्ते तदेव मुख्यः विषयः खलु मनश्शान्तिः एव सर्वे इच्छन्ति खलु तत् कथं प्राप्तुं शक्नुमः इति एव व्यवहाररूपेण उक्तमस्ति बहु सम्यक् अस्ति बहु बहु सम्यक् अस्ति यदा व्यवहारे आनयामः बहु बहु उत्तममस्ति भवन्तः सर्वे अपि प्रयत्नं कुर्वन्तु यदा कदाचित् तस्य आवश्यकता अस्ति समीचीनं तर्हि अत्र स्थगनं कुर्मः किम् अस्ति भगिनि अयं करपत्रं प्रेषितवती वा वेब्सैट् मध्ये स्थापितमस्ति भगिनि अस्माकं वेब्पेज् मध्ये तस्य लिङ्क् तस्य लिङ्क् अपि अहं प्रेषयामि खलु ध्वनिमुद्रण ध्वनिमुद्रणं यत्र अस्ति तत्रैव अस्ति करपत्रमपि ध्वनिमुद्रणस्य लिङ्क् अहं प्रेषयामि तत्रैव करपत्रमपि अस्ति ओके तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः Namaste